गणेशपुराणं क्रीडाखण्डम् अध्यायं सिक्स्टि क उवाच ततो नरान्तको दृष्ट्वा विनाय कविचेष्ठितं मेधया तर्कयामास दृष्टमस्याद्भुतं महद काशीराजे धृते तेन अखिलावाहिनी तेन भक्षिता मम सर्वशः अमात्यपुत्रसहितो राजासा सा उदरम् गतः अव्यङ्गीबहिरानीदो दर्शि विश्वं नृपस्यः अस्माद्भुक्तिश्च मुक्तिश्च भविता मेन संशयः तस्मादेनं हनिष्यामि मामयं वा हनिष्यदि इत्येवं निश्चयं कृत्वा प्रोवाचस स विनायकं दैत्य उवाच ऐन्द्रजालिकविद्येयं दर्शिता बहुधा त्वया नाहं बिभेमि तस्यास्तु मायावी च नरान्तकः यस्य निःश्वसितेनापि निपतन्ति महाद्रयः भ्रूक्षेपमात्रेण नचमे मे ब्रह्माण्डं कम्पदे भृशं यस्य हस्ततलाखादाद् भूगोलोऽपि द्विधा भवेद् तेन त्वं बालरूपः सन् युद्धं करिष्यसि यो व्याघ्रसम्मुखं गच्छेत्स कथं सुखमेष्यति क उवाच यदिभ्राक्मीं समाकर्ण्य नरान्तकसमीरिताम् अब्रवीत् परमात्मा सौ बालरूपी विनायकः विनायक उवाच किमर्थं वल्गसे मूढ यदादे दे पृदना किल भक्षिदा क्व गदा शक्तिर्यदर्थं कथ्यते मुहुः शूरा शौर्यं दर्शयन्ति नगाम् परबलारुजाम् वृच्छिकेन अल्पकायेन मृगेन्द्रो हन्यदे क्षणाद् अल्पेन हि प्रदीपेन नश्यते प्रबलं तमः यस्य सं निहितो मृत्युः सन्निपादात् अल्पेन मृणिनामत्तमादङ्गीः नियम्यते क उवाच यदि श्रुत्वा दु वाक्यानि देव प्रोक्तानि दैत्यराट चकंपे परया भीत्या जगर्जखनवदृढं भीषयनोद्रयज्ञैकम्पयन् भूमिमण्डलम् अधावत् परमावेशोऽहन्धुकामो विनायकम् यदा पदंगो दीपार्चिं हन्तुं यादि त्वरान्वितः त्रिवक्राम्भ्रुकुडीं बद्ध्वा वमन्नास्येन पावकम् तं तथा यान्दमालोक्य काचिराजो धनुः सज्जी चकारसहसा कर्णमाकृष्य सायकम् उवाच साम्ना दैत्यं तं निर्लज्जं बद्धमोचितं माजीवं त्यज दैत्येन्द्रजीवन् भद्राणि पश्यसि परावृत्यप्रयाहित्वं नो चेन्मृत्युं प्रयास्यसि क उवाच इति तद्वाक्यमाकर्ण्यप्राहदैत्यो रुषाज्वलन् नरान्तकेदिमेना मत्वादृशानां हि भक्षणाद इदानीं शरणं याहि यदि जीवितुमिच्छसि पुनर्नृपो ब्रविद्वाक्यं मुमूर्षुं तं समये विनाशसमये मूढ विपरीतामधिर्भवेद् मित्रानी शत दां यान्दि विपरीतेऽप्यनेहसि त्वयाप्याचरितं पापं वरगर्वादनेकशः वरस्यैव प्रभावेण न वजं गणितं त्वया इदानीमवतीर्णोऽयं त्वादृशानां वधाय जो भारं, हर्तुं भूमि गदं कश्यपात्मजो भार पाप भूमिगदृढ़ भारदी पुण्य शिथिल जाप संचादेव्रुत चकंपेदि दैत्यराट धावि राज्य गृहे सशरं धनु बलाचिक्षे बभूमौ तच्छदधा जव्यशीर्यत अहनन्मुष्टिकादेन तं नृपं इवाचलः दृष्ट्वा विनायको धावश्रुणिहस्तो महाबलः गर्जयन् गगनं सर्वं दिशश्च विदिशस्वनैः चकम्पे पृथिवी सर्वं दिश्य प्रज्वलिता इव तेजसा परशोस्तस्य सर्वदृष्टिहरेण च तेनाहनदैत्यशिरो यथेन्द्रो गिरिमुत्कटम् तथाहदो दैत्यराजो निपपादमहीतले मूर्च्छनां महदिं प्राप्तो मर्मभिन्नो यथाष्मना उदतिष्टत्क्षणाद्दैत्यो हस्ताभ्यां पर्वदा उभौ प्रगृह्य च प्रचिक्षेप विनायकजिकांसया शतधा चूर्णितौ तेन मुद्रा परशुखादिना मायया नानारूप धरो भवद यद्यद्रूपं चकाराशु तत्तद्रूपं विनायकः भग्नदर्पं चकाराशु तेन तेन महासुरम् शस्त्रैशस्त्राणि संवार्य तथास्त्रैरस्त्रसञ्चयम् ततस्तु मल्लयुद्धेन युयुधादे परस्परम् चरणं चरणेनैव हस्तं हस्तेन जघ्नदुः जानुभ्याम जानुनी चो पुष्पिदा पुष्पिदाविव किं शुकौ धरनी तले वसा च वक्षतुर्धरणीतले पुनरुद्धारलिनौर्पराभ्याज्नदू पुनर्दैत्यो महादेवं स्मृत वृक्षान वास्रजद पृष्टेन पृष्ठ धांदो लटेन लटकं स्रवन्तौ रुधिरं चोभौ गुल्फाभ्यां गुल्फमेव च पर्वतांश्च सवृक्षांश्च विनायकधिकांसया अप्राप्ताने वतान् सर्वांश्चिच्छेद स पद्मपाशाङ्कुशाखादैः परशोर्दृढकर्मणा तस्यां निवारितायां तु दैत्यो मुच्य तथा परां वृष्टिमन्यां तथा च अन्यां निरस्तां वीक्ष्य च काशीराजो ययौ ज्ञात्वा विनायकं विनायकोपि संक्रेष्या हृदि चिन्तामथा करोद असङ्ख्यादबलो दैत्योद्ययोपायो न दृश्यते कदा देवस्वनिलयं प्राप्स्यन्ति निषदारयः नरान्तकोऽपि संजातो देवानामप्ययान्तकः एवं चित्ते चिन्तयति वारं वारं विनातके स्तूणेषु परिदाबाणाः कालदण्डोपमादृढाः पिना कोष्ठापदमह्यः पुरस्तस्य पपातः शोभयं तेजसा स्वेन दिशश्च विदिशोऽपि च कार्मुकं तु स्फुरत्कान्दिदृष्ट्वा सर्वं जहर्षसः मेने जिदं तं च दैत्यं सिद्धं च देवकाङ्क्षितम् जग्राकबाणान् को दण्डं कृत्वा क्वेडितमुच्चकैः पिनाकं तोलयामास सज्यं चक्रे धनुस्तदा पृथिव्या जनुनिस्ताप्य तूणौ चोभयतस्तथा तद्धनुःशब्दमाकर्ण्य चकम्बे भुवनत्रयं सव्यदक्षिणहस्ताभ्यामाकृष्य सायकद्वयं मुमोचदैत्यमालक्ष्य मुञ्चन्नग्निकणान्मुहुः पपाददैत्यभुजयोरकस्मात् सायकद्वयं गर्जत्प्रकाशयद् व्योम संहर जीव सञ्जयन् उल्कैव पातयामासभुजवृक्षा विवास्य तद यथेन्द्रो वज्रपादेन पर्वतस्येव सानुनी नरान्तगद्वारदेश्ये अन्यावास्तां करौ तस्य ददर्श च विनायकः अभ्यधावत्पुनर्दैत्योऽव्यादितास्य इवान्तकः हस्ताभ्यां तत्र पादाभ्यां चिक्षेपपादपान् बहून् द्रुमाणां च महावृष्टिं प्रक्षिपत् स विनायके अन्धकारमहच्चासीन्न यदकिञ्चन तदोऽब्रवी दैत्यराजं दृष्ट्वा वीर्यं विनायकः इति श्रीगणेशपुराणे क्रीडाखण्डे षष्टितमोऽध्यायः ओम्